बृहदारण्य उपनिषत् अध्यायं टु ब्राह्मणं वन् ओ तृप्तबालाकिर्घानोचानो गार्ग्य आससहोवाचा काश्यं ब्रह्मते ब्रवाणीदिसहोवाचा जादशत्रुसहस्र मे दस्यां वाजि दद्मो जनको जनक इति वै जना इति सखो वाच गार्ग्यो ये वाच वादित्ये पुरुष येदमे वाहं ब्रह्मोपास इति सहो वाचा जादशत्रोर्मा मयि तस्मिन् संवधिष्ठा अधिष्ठा सर्वेषां भूदानां मूर्धा राजेदिवा अहमेदमुपास इति स येदमेवमुपास्तेधिष्ठा सर्वेषां भूदानां मूर्धा राजा भवति सहोवाच गार्ग्यो ये वासौ चन्द्रे पुरुष एदमेवाहं ब्रह्मोपास यदि स उवाचा जादशत्रुर्मा मयि बृहन् पाण्डरवासा सोमो राजेदिवा वा अहमेदमुपास इति स येदमेवमुपास्ते हर हर्षसुदःप्रसूदो भवति नास्यान्न क्षीयते सहोवाच गार्ग्यो ययेवासौ विद्युदिपुरुषयेदमेवाहं ब्रह्मोपास इति सहोवाच च दशत्रुर्मा मयि तस्मिन् संवदिष्टास्तेजस्विधि वा अहमेदमुपास इति स येदमेवमुपास्ते तेजस्वी ह भवति तेजस्विनी हास्यप्रजा भवति सहोवाच गार्ग्यो येवायमाकाशे पुरुषयेदमेवाहं ब्रह्मोपास इति सखोवाच जा दशत्रुर्मा मयि तस्मिन् संवधिष्ठाः पूर्णमप्रवीति वा अहमेदमुपास इति शययेदमेवमुपास्ते भूर्यदे प्रजया पशुभिर्नास्यात्माल्लोकात् प्रजोद्वर्तदे सहो वाचगार्ग्यो ये वा यौ वायौ पुरुषयेदमेवाकं ब्रह्मोपास यदि सहोवाचा जाद्रशत्रुर्मामयिदस्मिन् संवदिष्टा इन्द्रो वैकुण्डोपराजिदासेने दिवा अहमेदमुपास इति स ययेदमेवमुपास्ते ज्येष्णोर्हापराजिष्णोर्भवत्यन्यतस्त्यजायि सहो वाचगार्घ्य एवायमग्नौ पुरुषयेदमेवाहम् ब्रह्मोपास इति स होवाजादशत्रुर्मामयि तस्मिन् संवधिष्ठा विशास हिरि दिवा अहमेदमुपास इति स ययेदमेवमुपास्थे विशास हिर्ह विशास विषास हृहास्य सहोवाच गार्ग्योय एवायमप्सु पुरुष एदमेवाहं ब्रह्मोपास इति सहोवाच जातशत्रुर्मा वैदस्मिन् संवधिष्ठा प्रतिरूप इदि, इदि, इदि वा अहमेदमुपास इति स येदमेवमुपास्ते प्रतिरूपगुम् हैवैनमुपगच्छति नाप्रतिरूपमधोप्रतिरूपोऽस्माज्जायते सहोवाच गार्ग्यो येवाय मादर्शे पुरुष यदमेवाहं ब्रह्मोपास इति सहोवाचा चादशत्रुर्मा मयि तस्मिन् रोचिष्णुरिति वा अहमेदमुपास इति स येदमेवमुपास्ते प्रजा भवत्यधो यैः सन्निगच्छति सर्वागुस्तानदि रोचते सहोवाच गार्ग्यो येवा यन्तं पश्चाच्छब्दो नुदेत्येदमेवाहं ब्रह्मोपास इदि सहोवाचा जाद शत्रुर्मा मयि तस्मिन् संवधिष्ठा असुरिदि वा अहमेदमुपास इदिश सर्वगुं हैवास्मिल्लोक आयुरेदिनैनं पुराकालात्प्राणो जहाति सहोवाच गार्ग्यो ये वायन् दिक्षु पुरुष एदमेवाहं ब्रह्मोपास इति सहोवाचाजा दशत्रोर्मा मयि तस्मिन् संवधिष्ठा नपग इति वा अहमेदमुपास इति स येदमेवमुपास्ते द्वितीयवान्ह भवति नास्माद्गणश्चिद्यते सहोवाच गार्घ्योय एवायं छायामयः पुरुषयेदमेवाकं ब्रह्मोपास इति स जादशत्रोर्मा जादशत्रुर्मा मयि तस्मिन् संवदिष्टा मृत्युरिति वा अकमेदमुपास इति स येदमेवमुपास्ते सर्वगम् ऐवास्मिल्लोक आयुर्वेदिनैनं पुराकालान्मृत्युरागच्छति सहोवाच गार्ग्योय एवायमात्मनि पुरुषयेदमेवाहं ब्रह्मोपास इति सहोवाच जातशत्रुर्मामयितस्मिन् संवधिष्ठा आत्मन्विदि वा अहमेदमुपास इति स येदमेवमुपास्त आत्मन्वीम हाष प्रजाव तूषमा सग्य सहोवाचा जाशत्रुरे वनु धि नैतावधा विदिदी सहो वाच गाघ्य उपस्थ्वानीति सहो वाचा जादशत्रुः प्रदिलोमञ्चै दध्यद् ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यति वादायो पाणावादायोतस्तौ तौह। पुरुषगं सुप्तमा जग्मतुस्तमेदैर्नामभिरामन्द्रह्याञ्चक्रे बृहन्पाण्डर वासः सोम राजन्निधिश नोत्तस्थौ तं पाणिनापेशं बोधयाञ्चकारस होत्तस्थौ mm. सहोवाचा जा दशत्रुर्यत्रैष ये दत्सुप्तो भोज्य पुरुषक्वैष तदा भूत्कुद ये दागादिदिदुघन मेने गार्ग्यः सहोवाचा जादशत्रुर्यत्रैष ये तत्सुक्तो भूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशास्तस्मिञ्च्छेदे तानि यदा गृह्णात्यथ हैदत्पुरुषस्वपिति नाम तद्गृहीत एव प्राणो भवति गृहीत वाग्गृहीतं चक्षुर्गृहीतग् श्रोत्रं गृहीतं मनः स यत्रैतत्स्वप्निह्या चरदिते हास्यलोगास्ततु देवमहाराजो भवत्युदेव महाब्राह्मण उदे वच निगच्छति स महाराजो जानपदान गृहीत्वा जनपदे यथा परिवर्ते सैव मे वैष एतत्प्राणान् गृहीत्वा शरीरे यथा कामं परिवर्तते अथ यदा सुषुप्तो भवति यदा न कस्यच न वेद हिदा नाम नाण्ड्योद्वासप्ततिसहस्राणि हृदयात्पुरीद तमभिप्रतिष्ठन्ते ताभिप्रत्यवसृप्य पुरीतदिश्येदेश यथा कुमारो वा महाराजो वा महाब्राह्मणो वा तिघ्नीमानन्दस्य गत्वा शयीतैव मे वैष स यथोर्ननाभिस्तन्तु नोच्चर्येद्यथाग्नेः क्षुद्रा विस्फुलिङ्गाभ्युच्चरन्त्येवमेवस्मादात्मनः सर्वे प्राणाः सर्वे लोकास्सर्वे देवाः सर्वाणि भूतानिभ्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति सत्यन्तेषामेष सत्यम् इति द्युतीयाध्याये प्रथमं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं तु ब्राह्मणं तु ॐ यो ह वै शिशुगं साधानगं सप्रत्याधानगम् सस्तु नगं सदा मं वेद सप्तह द्विशतोभ्राद्रव्यान वरुणध्ययं वाव शिष्युर्योऽयं मध्यमः प्राणस्तस्येदमेवाधानमिदं प्रत्याधानं प्राणस्तुणा नन्दाम समेदासप्ताक्षितय उपदिष्टन्ते तद्या इमा अक्षन् लोहिन्यो राजयस्ताभिरेनगुं रुद्रोऽन्वायत्तोध या अक्षन्ना अक्षन्नापस्ताभिपर्जन्यो या कनीनका तयादित्यो यत्कृष्णन्तेनाग्निर्यच्छुक्लन् तेनेन्द्रोधर यैनं वर्धन्या पृथिव्यन्वा यत्ताद्यौरुत्तरया नास्यान्नक्षीयते य एवं वेद तदेशश्लोको भवध्यर्वाग्विलश्च मस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपं तस्या सद ऋषयः सप्ततीरे वागष्टमी ब्रह्मणा संविधानेत्यर्वाग् विलच्छमस ऊर्ध्व बुध्न इदीदं तच्छिर येष ह्यर्वाक् विलच्छमस ऊर्ध्व बुध्नस्तस्मिन् यशो निहितं विश्वरूपमिति प्राणा यशो विश्वरूपं प्राणाने तदाह तस्या सद ऋषयसप्ततीर यदि प्राणा वा ऋषयःप्राणाने तदाह वागष्टमी ब्रह्मणा संविदानेदि वाग्ध्यष्टमी ब्रह्मणा संवित्ते इमा वेव गौतमभरद्वाजा वयमेव गौतमोऽयं भरद्वाज इमावेव विश्वामित्र जमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निरिमा वेव वसिष्ठकश्यपावयमेव वसिष्ठोऽयं कश्यपो वागे वातृर्वाचाह्यन् मध्यतेर्ह नामै नामैतद्य दत्रिरिति सर्वस्यात्ता भवदि सर्वमस्यान्नं भवदीय एवं वेद इति द्वितीयाध्यायेद्वितीयं ब्राह्मणम् ओ बृहदारण्य उपनिषत् अध्यायं तु ब्राह्मणं त्रिपो द्वे वावब्रह्मणो यूपे मूर्तं चैव मूर्तं च मर्त्यञ्चामृदं च स्थितं च यच्च सच्चत्यच्च तदेतन्मूर्तै यदन्यद्वायोश्चान्दरिक्षाच्चैतन्मर्त्यमेतस्थितमेतच्छस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यै तस्य स्थितस्यै तस्य सद एष रसो य एष तपदि सदोह्येष रसः अधा मूर्तं वायुश्चान्तरिक्षञ्चैदमृदमे दध्यदे तत्यन्तस्यैतस्य मूर्तस्यैतस्य मृदस्यैतस्य यद् एदस्यत्यस्यैष रसो य एष एतस्मिन्मण्डले इत्यधिदैवतम् अधाध्यात्ममिदमेव मूर्तै यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाश येदन्मर्त्यमेदस्थितमेदत् सत्तस्यैतस्य मूर्तस्यै तस्य मर्त्यस्यैतस्य स्थितस्यै तस्य सदयेष रसो यच्चक्षुः सदोह्येष्रसः अधामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाश ये तदमृदमे दद्यते तद्यन्तस्यै तस्या मूर्तस्यै तस्यामृतस्यै तस्य यद् येदस्यैष रसो यो यन्दक्षिणे क्षन् पुरुषस्त्यस्यैष रसः तस्य हैदस्य पुरुषस्य रूपमयथा महारजनं वासो यथा पाण्ड्वा विकै यथेन्द्रगोपो यथा न्यर्चिर्यथा पुण्डरीकैयथा सकृद्विद्वित्तगुं सकृद्युते अस्य श्रीर्भवदीय एवं वेदाद आदेशो नेदिनेदि नेदि दस्मादिदि नेत्यन्यत् परमस्त्यध नामधेयगं सत्यस्य सत्यमिति प्राणा सत्यन्तेषामेष सत्यम् यदि द्वितीयाध्याये तृतीयं ब्राह्मणम् ओ